श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अथ तृतीयोऽध्यायः राज्ययुगधर्म और कलियुगे दोषों से बचने का उपाय नाम संकीर्तन शेषोकुवाच दृष्ट्वाऽऽत्मनिजये व्यग्रान्नृपान् हसति अहो माविजिगीषन्ते मृत्यो कामये स नरीन्द्राणां मोघः स्याद्विदुषामपि येति फेनोपमे पिण्डेयेति विस्रम्भिता नृपाः पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ततः सचिवपौराप्तकरीन्द्रान एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलां यत्यासा बद्धश्रिया न पश्यन्तन्ति केन्तकम् समुद्रावरणां जित्वा मां विषन् च बधिपूजसा खेदात्मजयस्तैस्तेैतन्मुक्तिरात्मजये फलम् यां वृषजैव मनुवस्तस्तुतास्य कुरुद्वः गता यथागतं युद्धे तां मां बुद्धयः मत्कृते पितृपुत्राणां भातॄणां चापि विग्रह जायते शस्तां राज्ये ममता बद्धचेतसां ममैवेयं महे कृष्णानते मूढेति वादिनः स्पर्धमानां मिथोघ्नन्ति म्रियते मत्कृते निपाः पृथुपुरुर्वागान्धिर्नहुषो भरतोऽर्जुनः मान्धाता सगरो रामः षट्माङ्गोधुन्धुहारघो तृणमिन्दुर्ययातिश्च सर्याति सन्तनुर्गयः भगीरथकुवलयाश्वः कुकुत्स्थो नैषतो नृगः हिरण्यकसिपुर्वित्रो रावणो लोकरावणः नमुचिसंबरो भौमो हिरण्याक्षोततारकः अन्ये च बहवोदयत्या राजानो ये महेश्वराः सर्वे सर्वविदशूराः सर्वे सर्वजितो जिताः ममतां मयि वर्तन्तकृतोच्चैर्मर्त्यधर्मिणः कथावशेषा कालेन स कृतार्था कृता विभो कथा इमास्ते कथितामहीयसां विताय लोकेषु यशः परेषां विज्ञानवैराग्यविवेक्षया विभो वचो विभूतिर्न तु पारमार्थम् यस्तोत्तमश्लोकगुणानुवादसंज्ञीयते भिक्ष्ममङ्गलध्न तमेव नित्यं शृणुयादभिक्ष्मं भक्तिम भक्तिमभिप्समानः राजवाच केनोपायेन भगवन् कलिर्दोषान् कलौ जनाः विदमिष्यन्ति पतितांस्तन्मे ब्रूहि यथा मुदे युगानि युगधर्माश्च मानम् प्रयकल्पयोः कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः श्रीशोकुवाच कृते प्रवर्ते धर्मश्चतुष्पात्त जनैर्सितः सत्यं दया तपोदानम् इति पादानिभो संतुष्टा निप सन्तुष्टा करुणा मैत्रा शान्ता दान्तासिति क्षवः आत्मा रामाः समृश प्रायस क्षणन्त्रमणा जनाः तेतायाम धर्मपादानां तुल्यां शो हीयते शनैः अधर्मपादैर्नृतहिंसा सन्तोषविग्रहैः तदा क्रिया तपोनिष्ठां नातिहिंसा नदम्पटाः त्रैर्वर्गिका तपः सत्यदयादाने स्वधर्मं शशसि द्वापरे हिंसातुश्च धर्मस्या धर्मस्याधर्मलक्षणैः यशस्मिनो महाशालाः स्वध्या स्वाध्यायाध्ययने रताः आढ्याकुटुम्बिनो हृष्टा वर्णाशत्रुदिरोत्तराः कलौ तु धर्महेतूनां तुर्यांसो धर्महेतुभिः एधमानैषिमारोष्यन्ते सोऽपि विनङ्क्षते तस्मिन् लुब्धा दुराचारा निर्दया शुष्कवैरिणः दुर्भगा भुरितर्शाश्च सिद्धदासोत्तरा प्रजाः सत्त्वं रजस्तम् इति दृश्यन्ते पुरुषे गुणाः कालसञ्चोदितास्ते वै परिवर्तन्त प्रभुवन्ति यदा सत्वे मनोबुद्धिन्द्रियाणि च तथा तदा कृतयुगं यद्याज्ञाने तपसि यदा धर्मार्थकामेषु भक्तिर्भवति देहिनां तदा त्रेतारजो वृत्ति इति जानीह बुद्धिमन।